गरुडपुराणम् आचारकाण्डम् अध्यायम् नयन् हरिरुवाच समये दीक्षितशिष्यो बद्धनेत्रस्तु वाससा अष्टाहुदिशतं तस्य मूलमन्त्रेण होमयेद द्विगुणं पुत्रके होमम् त्रिगुणं साधगे मदं निर्वाणदेशिके रुद्रचतुर्गुणमुदाहृदम् गुरुविष्णुद्विजा गुरुविष्णुद्विजस्त्रीणाम् बध्यस्त्वश्च दीक्षितैः अथ दीक्षाम् प्रवक्ष्यामि धर्मा धर्मक्षयङ्करीम् उपवेश्य बहिः धारणं धारणम् तेषु कारयेद वायव्याकलया रुद्रचोष्यमाणान् विचिन्तयेद आग्नेया दह्यमानांश्च प्रावीता नम्भसा पुनः तेजस्तेजसितम् जीवमेकीकृत्य समाक्षिपेद प्रणवचिन्तये द्व्योम्नि शरीरेण्यत्तु कारणम् एकैकम् योजयेत्तत्र क्षत्रज्ञम् देहकारणाद उत्पाद्ययोजयेत्पश्चादेकैकम् वृषभद्वज मण्डलाद्येष्वशक्रस्तु कल्पये त्वार्चयेद्धरिम् चतुर्द्वारम् भवेत् तच्च ब्रह्मतीर्थादनुक्रमाद हस्तम्बद्मसमाख्यादम् पत्राण्यङ्गुलय्य स्मृताः कर्णिकातलहस्तन्तु न खान्यस्यदु केशराः तत्रार्चयेद्धरिम् ध्यात्वा सूर्यन् अग्नयन्तरेव च तं हस्तं पादयन्मूर्ध्नि शिष्यस्य दुसमाहिदः हस्ते विष्णुस्थितो यस्माद्विष्णु हस्तस्ततस्त्वयं नश्यन्ति स्पर्शनार्थस्य पादकान्यखिलानि च गुरुशिष्यं समभ्यर्च्य नेत्रे बधे देवस्य दे प्रमुखं कृत्वा पुष्पमे वार्पयेत्तदः पुष्पम् निपतितम् यत्र मूर्ध्नो देवस्य शार्ङ्गिणः तन्नाम कारये तस्य स्त्रीणाम् नामाङ्कितम् स्वयम् शूद्राणाम् दाससंयोम् विचक्षणः इदृ गारूडे महापुराणे आचारकाण्डे विष्णुदीक्षानिम् नाम नवमोऽध्यायः ओम्